नवमोऽध्यायः ध्यानम् ओम् बबन्धूककाञ्चननिभम् गुजिराकमालाम् नवमोऽध्यायः ध्यानम् ओम् बबन्धूककाञ्चननिभम् गुजिराक्कमालाम् पाठाङ्कुशौचवनदाम् निजबाहुदण्डैः ाङ्कुशौचवरदाम् निजबाहुदण्डैः बिभ्राणबिन्दुशकलाभरणम् तृनेत्रम् बिभ्राणबिन्दुशकलाभरणम् तृनेत्रम् अर्धाम्बिकेशमनिशम् वपुराश्रयामि अर्धाम्बिकेशमनिशम् वपुराश्रयामि ओम् राजोवाच ॐ राजोवाच जिगित्रमिदमाख्यातम् भगवन् भवता मम जिगित्रमिदमाख्यातम् भगवन् भवता मम देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्रितम् देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्रितम् भूयस्येत्काम्यहम् श्रोतुम् रक्तबीजे निपातिते भूयस्येत्काम्यहम् श्रोतुम् रक्तबीजे निपातिते ककारशुम्भो यत्कर्म निशुम्भःसातिकोपनः ककारशुम्भो यत्कर्म निशुम्भःसातिकोपनः ऋषिरुवाच चकारकोपमतुलम् रक्तबीजे निपातिते चकारकोपमतुलम् रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे शुम्भासुरो अन्यमानम् महासैन्यम् विलोक्यावर्षमुद्वहन् अन्यमानम् महासैन्यम् विलोक्यावर्षमुद्वहन् अभ्यधावन्निशुम्भोतमुक्ष्यया सुरथेनयान् अभ्यधावन्निशुम्भोतमुक्ष्यया सुरथेनया तस्याग्रदस्तथा पृष्ठे सन्दष्टौस्तपुटाः क्रुद्धाहम् पुं नेबीमुपार्युः सन्दष्टौस्तपुटाः क्रुद्धाहम् पुंनेभीमुपायुः आजगामः ये यश्रुम् ततो युद्धमतीवासीद्भयोः ततो युद्धमतीवासीद्देव्याजुम्भरितुम्भयोः करवर्षमतीवोऽग्रम् मेघयोरिव वर्षतोः करवर्षमतीवोऽग्रम् मेघयोरिव वर्षतोः चिक्षेदास्तान् षदां ताभ्याम् कण्डिकास्मशरोत्तरैः च्छेदास्तान् सरांस्ताभ्याम् सन्धिकास्मचरोत्तरैः ताडयामातताङ्गेतु चक्रोभैरपुरेश्वरौ तालयामातताङ्गेतु चक्रोभैरपुरेश्वरौ निषुकुम्भो निशितम् खड्गम् चर्मतादाय सुप्रभम् निषुकुम्भो निशितम् खड्गम् चर्म तादाय सुप्रभम् अतालयन् मूर्ध्निसिंहम् देव्यावाहनमुत्तमम् अतायम् मूर्धिसिंहम् देव्यावाहनमुत्तमम् ताडितेवाहने देवि सुरप्रेणासिमुत्तमम् ताडितेवाहने देवि स्वरप्रेणासिमुत्तमम् निपुम्भव्याकृतिस्वेदकर्मचाप्यक्तचन्द्रकम् निपुम्भव्याकृतिस्वेदकर्मचाप्यक्तचन्द्रकम् षण् धर्मणि ह्येतशक्तिम् शिक्षेपतो सुरः छिन्ने कर्मिख्गे सशक्ति क्षेत्र दुवप्यचक्रेतना तप्यचक्रेतनामुखागता कोपाध्मा निशुंभोंूल जग्राहदाणव गोप्मा निशुंभों शूल जग्राहदाणव आयातम मुष्ठिपातेन देवी तच्चाप्यचूर्णय आयातम् मुष्टिपातेन देवी तच्चाप्यतूर्णयत् आविद्यासगताम् सोऽपि चिक्षेपदण्डिकाम् प्रति आदिभ्यासगताम् सोऽपि चिक्षेपदण्डिकाम् प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् समायान्तम् दैत्यकुङ्गवम् ततः परशुहस्तम् समायान्तम् दैत्यपुङ्गवम् आहत्य देवी बाणोघैरपातयत भूतले आहत्य देवी बाणोघैरपातयत भूतले तदस्मिन् निपतिते भूमौ निशुम्भे घातरयतीव सन् शुद्धप्रययो हन्तुमम् विकारान् सरलरस्तथाप्युच्चैर्गृहीतपरमायुधैः सरलरस्तथाप्युच्चैर्गृहीतपरमायुधैः भुजैरक्ताभिरपुलैर्याप्याशेषम् वभौ नभः भुजैरक्ताभिरपुलैर्व्याप्यादेशम् वभौ नभः समायान्तम् समालोक्य देगी दङ्खमवादयत् समायान्तम् समालोक्य देवी शङ्खमवादयत् ज्याशब्दम्तापि धनुषप्रकारातीवदुत्सहम् ज्याशब्दम्तापि धनुषप्रकारातीवतुस्सहम् पूरयामासकपुभो निजघण्टात्त्वनेन च पूरयामासकपुभो निजघण्टात्त्वनेन च समस्तदैत्यसैन्यानाम् समस्तदैत्यसैन्यानाम् तेजोवदविभागिना ततत्सिंहो महानादैत्यादितेभ महामदैः ततत्सिंहो महानादैत्यादितेभ महामदैः पूरयामात गगनम् काम् तथैव दिशोदश पूरयामात गगनम् काम् तथैव दिशोदश ततःकालीम् समुत्पत्त्य गगनम् स्वा ततः कालीम् समुत्पत्य गगनम् का स्वा मताडयते कराभ्यान्तन्निदानेन प्राखनात्ते विलोहिताः कराभ्यान्तन्निदानेन प्राखनात्ते विलोहिताः अष्टात्तःतमजिवम् शिवदूती चकारः अष्टात्तःतमजिवम् शिवदूती चकारः तैः शब्दैरतुरात्रे तु शुम्भकोपम् परम् ययौ तैः शब्देन सुरास्रेतु शृन्धकोपम् परम् ययौ दुरात्मम् तिष्ठ हरिष्ठेति व्याजहाराम् विकायता दुरात्मम् स्तिष्ठ हरिष्ठेति व्याजहाराम् विकायताम् पदाजयेत्यभीतम् देवैराकाकतम् स्थितैः पदाजयेत्यभीतम् देवैराकाशतम् स्थितैः शुम्भेनागत्यया शक्तिर्मुक्ता ज्वालातिदीधना शुम्भेनागत्यया शक्तिर्मुक्ता ज्वालातिदीधना आयान् एवन्निपूटा भातानिरस्तामहोल्कया आयाञ्चवन्निपूटाभातानिरस्तामहोल्कया सिंहनादेन शुम्भस्य सिंहनादेन शुम्भस्य व्याप्तम् लोकक्रयान्तरम् निर्घातनि स्वनु अघोरोधितवानवनीपते निर्घातनि स्वनु अघोरोधितवानवनीपते शुम्भभुक्तान् शरान् देवि शुम्भस्तत्प्रहितान्क्षरान् शीर्षे दत्वचनैरुग्रैश्चतशोधसहस्रशः सतत्राचण्डिका क्रुद्धादूलेनाभिजघानतम् सतत्राचण्डिका क्रुद्धादूलेनाभिजघानतम् सतताभिहको भोगो मूर्छितो निपपातः सतताभिहको भोगो मूर्छितो निपपातः ततो निशुम्भ सम्प्राप्य चेतनामात्तकार्मुकः ततो निषुम्भर्सम् प्राप्य चेतनामार्थकाः आजघानसरैर्देवीम् कालीम् एतरिणम् तथा आजघानसरैर्देवीम् कालीम् एतरिणम् तथा पुनश्चकृत्वा बाहून विद्युतम् दनुजेश्वरः पुनश्चकृत्वा बाहून द्युतम् दनुजेश्वरः चक्रायुधेन धिलीयच्छादयामातचिका चक्रायुधेन दीर्य स्थादयामासचण्डिकाम् तदरोभवरी क्रुद्धा दुर्गादुर्गार्तिनाशिनी तदरोभकपरी क्रुद्धा दुर्गादुर्गार्तिनाशिनी चिक्षेदतानि चक्राणि स्वकरे सायकांश्चतान् चिक्षेदतानि चक्राणि स्वकरे सायकांश्चतान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ततो निशुम्भो वेगेन गदामादाय सण्डिका अभ्यधामत वै हन्तुम् दैत्यसेना समावृतः अभ्यधामत वै हन्तुम् दैत्यसेना समावृतः तस्यापत एवासु गदाम् सित्खेदसण्डिका तस्यापत एवासु गताम् खड्गेन शि तधारेण सतशूलम् समाददे शूलहत्तम् समायान्तम् निशुम्भमरार्दनम् शूलहत्तम् समायान्तम् निशुम्भमरार्दनम् हृदि विव्याभूलेन वेगाविभ्येन चण्डिका हृदि विव्याघ्रूलेन वेगाविभ्येन चण्डिका भिन्नस्य भिन्नश् तस्टूल हृदया निःस्कृत महाबलो महवीय पुरुषो वदन महाबलो महवीय पुरुषो वदन तस्ट्राम देवी प्रभस्व शिस्ेदखड्गे तथातुवि शिस्ेद्गे तथातुजि ततस्ंत्रखाद्रम धर्मिषुचि तटस्ंत्खाद ग्र धर्मिरा क्षुणचिरोधरा असुरां तथा जिवदूती असुरां तथा काली जिवदूती रहापरान कौमारीशक्तिर्भी बुन्मसुरा औमादीशक्तिर्भिन्ना केिन्ने महासुरा ब्रह्माणी मंत्रूतेरा ब्रह्माणी मंत्रूते निराकृताशूलन भिन्ना महेश्वरीशूलन भिन्नाथाफले वाराहीतुम् दघातेन केचिच्चूर्णीकृता भुवि वाराहीतुम् दघातेन केचिच्चूर्णीकृता भुवि खण्डम् खण्डम् चचक्रेण वैष्णव्यादानवाकृताः खण्डम् खण्डम् चचक्रेण वैष्णव्यादानवाकृताः वज्रेण चैन्द्रिहस्ताक्षगमुक्तेन तथापरे वज्रेण चैन्द्रिहस्ताक्षगमुक्तेन तथा परे केचि दिन केचि दुसुरा केचिन्ना भर् भर्तालीददूती मृगा श्रीवाकंडेयपुराणे सवर्णिन्वंतरे देवी देवीमाहात्म्ये विरुम्भवधो नाम नवमोऽध्यायः ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये विरुम्भवधो नाम नवमोऽध्यायः